गणेशपुराणम् उपासनाखण्डम् अध्यायं 66. कौण्डिन्य उवाच धरामात्रासनो तौ दु नभःप्रावारसंयुधैः दिगम्बरो सर्वधातुसंस्पर्शवर्जितावुभौ अयाचितभुजौ नित्यं जलेनैव अखिला क्रियाः द्विजरूपधरोपश्यत् कुर्वाणौ सत्त्वशुद्धये गृहं च माक्षिका पुञ्जैर्मशकैरभितो वृतं मूर्तिं च गणनाथस्य पूजितां पुष्पपल्लवैः अनन्यभक्त्या ताभ्यां च तत्पराभ्यां ददर्शसः तावूजे श्रूयतां वाक्यं जन्मया प्रोच्यतेनयोः मिथिलधिपदे कीर्तिशुत्वाकं क्षुधितो भृशं तृप्तिकामः समायादो न स कर्मणा दाम्भिकेनैव सत्वं न परिरक्ष्यते मम तृप्तिकरं किञ्चिद् गृहे चेदस्तिदीयता दम्पती ऊचतुः चक्रवर्ती नृपो यसौ तेन तृप्तिर्न कृता ते आवाभ्यां तु दरिद्राभ्याम् किं देयं तृप्तिकारकं नदी नदजलैरब्धिरसङ्ख्यैर्यो न पूर्यते बिन्दुमात्रेण पयस पूर्यते वद द्विज उवाच भक्र्या स्वल्पमपि बहु तृप्तिकरं मम अभक्र्यावाधदम्भेन बहु दत्तं वृथा भवेद् तावूचतुः आवयोर्न गृहे किञ्चिच्छपद्धस्ते द्विजोत्तम पूजयै गणनाधस्य प्रादर्दूर्वाङ्गुराहृदः पूजितो गणनाधस्तैस्तत एको वशिष्यते द्विज उवाच भक्त्या दत्तः स एकोऽपि तृप्तये स्यात् प्रदीयदा कौण्डिन्य उवाच विरोचना तस्मै श्रुत्वा वाक्यं तदीरिदं येकं दूर्वाङ्गुरं भक्र्या तेन दृप्तो भवद्विदः शाल्यन्नं पायसान्नं जनाना पक्वान्नमेव व्यञ्जनानि च सर्वाणि लेह्य चोष्यान्यनेकथा विरोचनादौ कल्प्य तस्मिन् दूर्वाङ्गुरे च तं गृहीत्वा ब्राह्मणस्तं तु बभक्षपरया मुदा तस्मिन् दूर्वाङ्गुरे भक्त्या दत्ते नाथभक्तिदः प्रशशामद्विजस्यास्य तत्क्षणाजरानलः तृप्तिश्च परमातेन प्राप्ता तत्क्षणमात्रतः आलिलिङ्गत्रितिरसं तृप्तो हर्षाद्विजस्तदा तत्याजकुत्सितं रूपं प्रकटो भूद्गजाननः चतुर्भुजोरविन्दाक्षशुण्डा दण्डविराजितः कमलं परशुम्मालां दन्तं करतलैर्दधद महार्ह मुकुडो राजत्यर्णकुण्डलमण्डितः दिव्यवस्त्रपरीधानो दिव्यगन्धानुलेपनः उवाच तौ प्रसन्नात्मा दम्पती गजाननः वृणीतं तं वरं शीघ्रं मनसा यं यमिच्छतः तावोचतुः जन्मनि यत्र नौ स्यादां तत्र ते दृढभक्रिता भवसागराद न चावाञ्चित्तयोरन्यरपेक्षितमिभानन कौण्डिन्य उवाच यदि तद्वाक्यमाकर्ण्य तथेत्युक्त्वा गजाननः पुनरालिङ्ग्यपि भक्तं त्रिशिरसं मुदा ये तस्मात् कारणाद् दूर्वा भारोऽस्मै दीयते मया असङ्ख्यभक्षणाद्यो न तृप्तिं देवः समायौ दूर्वाङ्गुरेण चैकेन स तृप्तिं परमां ययौ इति ते कथितः सम्यगाश्रये सर्वकामदः यहासमीम भक्त शुणुते श्रेच्चय सपुत्रधन काढ़्यपरकोदे गजान लभे भक्तिकामो मुक्तिमायात गणजु श्रुता पीढ़ीस्रया संशय पुनः प्रपेदे कृतितं ज्ञात्वा कौण्डिन्यः पुनरब्रवीत् आश्रये शृणु वाक्यं संशयस्यापनुत्तये यद्ब्रवीमि हृदिस्तस्य मया ज्ञा नके न के एकं दुर्वाङ्कुरं गृह्य गच्छ शीघ्रं बिडौजसं वदाशीर्वचनं पूर्वं पश्चाद्याच्चस्वकाञ्चनं दूर्वाङ्कुरेण तुलिदं गृहीत्वा सदिहानय न्यूनं नाकिगं ग्राहयम् तस्य भाराच्युभानने गणा ऊचुः यदि वाणीं तस्य श्रुत्वा गृहीत्वैगं तदाश्रय दूर्वांगुरम ययशक्रम भर्तवापरायण उपासना उपासनाखंडे ष्टितय ओ